सप्तमोऽध्यायः ध्यानम् ॐ ध्यायेयं रत्नपीठे सुककलपठितं शृण्वन्तीं श्यामलाङ्गीं न्यस्तेकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकिं वादयन्तीं कल्लाराबद्धमानां निमितविलसच्चोलिकां रक्तवस्त्राम् मातङ्गी सङ्गपात्रां मधुरमधुमदां चित्रकोद्भासि फलाम् ॐषिर्वाच आज्ञप्तास्ते दैत्या चण्डमुण्डपुरोगमा चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः दादृशुस्ते ततो देवीम् ईषद्भासां युवस्थिताम् सिंहस्योपरिशैलेन्द्र शृङ्गे महति काञ्चले ते दृष्ट्वा तां समादातुम् उद्यमं चक्रुरुद्यताः आकृष्टचापाशिधरा तथान्येतः समीपगाः ततः कोपं चकारोच्चैः अम्बिका ता नदीं कोपेन चास्या मषिवर्णम् अभूतदा भृगुटीकुटिलात्तस्या ललाटफलकादृतं काली करालवदना विनिष्ट्रान्तासिपाशिनी विचित्र खट्पाङ्गधरा नरमाला विभूषणा दिपि चर्म परिधाणा शुष्कमांसाति भैरव अस्ति विस्तारवदना जिह्वालन निमग्ना रक्तनयना सैन्य सा वेगेनापति महासुरा सैन्ये त्र सुक्षेतबल पाष्णग्रहांकुश्रा घंटा सन्वतायस्तेन मुखे चिक्षेपवारणान् तथैव योधं तुर्गै रथं सारथिना सह निक्षिप्य वक्त्रैर्दशनै चर्वयन्तीति भैरवम् एकं जग्राहकेशेषु ग्रीवायामसि चापरम् पादेनाक्रम्य चैवाण्यम् उरसान्यमकोथयत् तैर्मुक्तानि च शस्नानि महास्राणि तथा सुरैः सुखेन जग्राहरुषा दशनैर्मसितान्यपि बलिनां तद्बलं सर्वम् असुराणां दुरात्मनां ममृता भक्ष्यन् अन्याश्चाताडियत्तथा असिता निहिता केचित् केचित् तन्ताग्राभीहतास्तथा फलेन तद्बलं सर्वम् असुराणां निपातितं दृष्ट्वा चण्डोऽभिरुद्राव तां कालीमतिभीषणाम् सरवरसे महाभीमैर्भीमाक्षिं तां महासुरः छादयामास चक्रैश्च मुण्डः सहस्रशः तानि चक्राण्यनेकानि विषमानानि तन्मुखं बभूर्बुर्यथार्कबिम्बानि सोबहूनि घनोदरं ततो जहासातुरसा भीमं भैरवनादिनी काली करालवक्त्रां तदुर्दर्शदशनोज्ज्वला उत्थाय च महासिंहं देवी चण्डमधावत् बृहीत्वा चाश केशेषु शिरस्तेनासिनाच्छिनत् अथ मुण्डोऽभ्यधावत्तां दृष्ट्वाचण्डम् निपातितम् तमप्यं पातियद्भूमौ सा खड्गाम्बियकम् वृषा अथशेषं ततः सैन्यम् च सुमहावीर्यम् दिशो स्थिरश्चण्डस्य काली च गृहीत्वा मण्डमेव च प्राह प्रचण्डाट्टहासंस्रमभ्येत्य चण्डिकाम् मया तवात्रौ पशुतौ चण्डमण्डौ महापशु शुम्भं निशुम्भं च हनिष्यसि ऋषिर्वाच तावानीतौ ततो दृष्ट्वा चण्डमण्डौ महाशिरौ उवाचकालिं कल्याणी ललितं चण्डिकावचः यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता लोके ख्याता देवी भविष्यते। दे। ॐ श्रीमार्कुण्डे पुराणे सावर्णिके मन्वन्तरे देवी महात्मे चण्डमण्डवधू नाम